नारायणीयं दशकं 68 मीटर सम्मता तव विलोकनात् गोपिका जनाः प्रमदसङ्कुलाः पङ्कजे क्षण अमृतधारया सम्प्लोधायिवस्तिमितदां दधुस्त्वत्पुरोगदाः तदनु का भुजम् सपदि गृह्णति निर्विशङ्कितम् खनपयोधरे संविधाय सा पुलकसंवृदा तत्तुषीचिरम् तव विभो पुरा कोमलम् भुजं निजगलान्तरे पर्यवेष्टयद गलसमुद्गदं प्राणमारुदम् प्रदिनिरुन्धदी वादिहर्षुला अपगदत्र पा कापि कामिनी तव विकरुणो वने संविहाय मामपकदोषिका त्वा मि सस्पृशेत् इति सरोषया तावदेकया सचललोचनं वीक्षितो भवान यदि मुदा कुलैर्वल्लवी जनैः सममुपागदो यामुने तडे मृदु मृदुकुजाबर कलिता सने कदि विधा कृपा के सर्वो धुत दया दया के जिताश्रुते कदिचिदीदृशा मादृश्येष्वपीत्यभिहितो भवान् वल्लवीजनैः अयि कुमारिका नैव शङ्क्यतां दाम कठिनदा मयि प्रेमकातरे मयि तु चेतसो गोनुवृत्तये कृतमिदं भवान् अयिनिशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम तदि रम्यतां विभो यदि गिराधिकं मोदमेधुरैर्व्रजवधू जनैः साकमारमन् कलितकौदुको रासखेलने गुरुपुरीपदे पाहि मां गदाद सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द